इति प्रथमाष्टके द्वितीयप्रश्नप्रारम्भः को उद्धन्यमानमस्या अमेध्यम् अपपाप्मान यजमानस्य हन्तु शिवानः सन्तप्रदिशश्चतस्रः शन्ना माता पृथिवीतोकसाता शन्ना देवेरभिष्टये आपो भवन्तु पीतयेः संयोरभिस्रवन्तु नः वैश्वानरस्य रूपम् पृथिव्याम् परिस्रसाः स्योनमाविशन्तु नः यदिदम् दिवो ज ददः पृथिव्याः सञ्जज्ञाने रोदसी सम्बभूवतुः ऊषान्कृष्णमवतु कृष्णमूषाः इहो भयोर्यज्ञिजमागमिष्ठाः वो देः कुर्बाणो यत् पृथिवीमचरः गुहाकारमाखुरूपम् प्रचेत्य तत्तेऽन्यक्तमिह सम्भरन्तः शरञ्जीवेम शरदः सवीराः ओर्जम् पृथिव्यारसमाभरन्तः शरञ्जीवेम शरदः पुरोचेः वम्रेभिरणुवित्तम् गुहासु श्रोत्रन्त उर्व्यवधिराभवामः प्रजापतिसृष्टानाम् प्रजानाम् क्षुधोपहत्ये सु वितन्नो अस्तु उपप्रभिन्नविषमोर्जम् प्रजाभ्यः सूदम् गृहेभ्यो रसमाभरामि यस्य रूपम् बिभ्रति मामविन्दत् गुहाप्रविष्टागुंसरिरस्य मध्ये तस्येदम् विहतमाभरन्तः अच्छम्बट्कारमस्याम् विधेम यत्पर्यपश्यत्सरीरस्य मध्ये उर्वीमपश्यज्जगतः प्रतिष्ठाम् तत्पुष्करस्यायतनाद्धिजातम् वर्णम् पृथिव्याः प्रथनगुम् हरामि याभिरर्गुम् हज्जगतः प्रतिष्ठाम् उर्वीमिमाम् विश्वजनस्य भर्त्रीम् तानः शिवाः सन्तु सर्वाः अग्नेरेतश्चन्द्रगुम् हिरण्यम् अद्भ्यः सम्भूतममृतम् प्रजासो तत्सम्भरन्नुत्तरतो निधाय अतिप्रयच्छन् दुरितिम् तरेयम् अश्वोरूपम् कृत्वा यदश्वत्थे तिष्ठः संवत्सरम् देवेभ्यो लिलाय त्वया वयमिषमोर्जम् वदन्तः रागस्पोषेण समिषामदेम रागत्रियाह्रियमाणस्य यत्ते पर्णमपततृतीयस्यै दिवोधि सोऽयम् पर्णः सोमपर्णाद्धिजातः ततो हरामि सोमपीठस्यावरुद्ध्यै देवानाम् ब्रह्मबादम् वदताम् यत् उपाशृणो शुश्रवावे ततो मामापिशतु ब्रह्मवर्चसाम् तत्सम्भरग्रस्तदवरुन्धेयसाक्षात् यया ते सृष्टस्याग्नेः हेतिमशमयप्रजापतिः तामिमामप्रदाय शमेगम् शान्ते हराम्यहम् यत्ते सृष्टस्य उरुन्नो लोकमनुप्रभाहि यत्तेताम् तस्य हृदयमाच्छिन्दम् जातवेदः मरुतोद्भिस्तमयित्वा एतत्तेतदशनेः सम्भरामि सात्मा अग्रे सहृदयो भवेह चित्र्यादश्वत्थात्सम्भृता विहत्यः शरीरमभिसग्स्कृतास्थ प्रजापतिना यज्ञमुखेन संविताः तिस्रस्त्रिविद्भिर्मिथुनाः प्रजात्यै अश्वत्थाद्धव्यवाहाद्धिजाताम् अग्नेस्तनो यज्ञिजागुम् सम्भरामि शान्तयो निगुंशमे गर्भम् अग्नये प्रजनयितवे यो अश्वत्थः शमी गर्भः आरुलो हत्वे स च तन्ते हरामि ब्रह्मणा यज्ञियैः केदुभिः सह यन्त्वा समभरम् जातवेदः यथा शरीरम् भूतेषु न्यक्तम् ससम्भृतस्यीदशिवः प्रजाभ्यः पुरुन्नो लोकमलुनेषु विद्वान् प्रवेधसे कवये यतो भयमभयम् अस्तु अवदेवान् घरैर्बोधयतातिथिम् आस्मिन्हव्याजुहोतना उपत्वाग्नेहविष्मतेः घृता चेर्यन्तु हर्यत जुषस्व समिधो ममा तन्त्वा समिद्भिरङ्गिरः घिरे न वर्धयामसि बृहच्छोचायविष्ठ्या स्मिध्यमानः प्रथमो नु धर्मः समक्तुभिरज्यते विश्ववारः शोचिष्केशो घृतनिर्णिक्पावकः सुयज्ञो अग्निर्यजथाजदेवान् घृतप्रतीको घृतयोनिरग्निः घृतैः समिद्धो घृतमस्यान्नम् घृतपृषस्त्वा सरितो वहन्ति घृतम् पिबन् सुयजा यक्षिदेवान् आ दुर्गा अग्ने हविषो जुषाणः घृतप्रतीको घृतयो निरेधि घृतम् पीत्वा मधुचारुगव्यम् ेव पुत्रमभिरक्षतादिमम् त्वामग्ने समिधानय्यविष्ठ देवादूतम् चक्रिरेहव्यवाहम् उर्ज्रयसङ्घृतयो निवाहुतम् तेषम् चक्षुर्दधिरेचोदयन्वति त्वामग्ने प्रतिब आहुतम् घृतेन सुन्नायवः सुमिधा समीधिरे समावृधान उरुज्रयागुंसि पार्थिवा वितिष्ठसे धृतप्रतीकम् वरुतस्य धूरिषदम् अग्निम् मित्रम् न समिधानरिञ्जते इन्धानो अक्रो विदथेषु दीद्यत् शुक्रवर्णामृदुनो यगुंसते धियम् प्रजा अग्ने संवासय आशाश्च पशुभिः सह राष्ट्राण्यस्मा आधेहि यान्यासम् सवितुः सवे महे विष्पत्ने सदने ऋतस्य अर्वाचीयेतम् धरुणेरगीणाम् अन्तर्वत्नी जन्यम् जातवेदसम् अधराणाम् जनयथः पुरोगाम् आरोहतम् दशत पुंशक्वरेनाग्न आयुषावर्चसा सह द्यो ज्येवन्त उत्तरामुत्तरागुंसमाम् दर्शमहम् पूर्णमासंयज्ञम् यथा यजै ऋत्वियवते स्थो अग्निरेतसौ गर्भम् दधाथाम् देवामहं ददे तत्सत्यम् यद्वीरम् बिभृशः वीरञ्जनयिष्यथः ते मत्प्रातः प्रजनिष्येथे ते प्रजाते प्रजनयिष्यथः प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोके ढृतात् सत्यमुपैमि मानुषाद्देव्यमुपैमि दैवीम् वाचम् यच्छामि शल्कैरग्निमिन्धानः उभौ लोकौ सनेमहम् उभयोर्लोकयोररुद्ध्वा अतिमृत्यन्तराम्यहम् जातवेदो भुवनस्य रेतः यः सञ्च तपसो यज्जनिष्यते अग्निमश्वत्थादधिहव्यवाहम् शमे गड्भाज्जनजनयोमजोभूः अयम् तेजो निर्वृत्वियः यतो जातो अरोचथाः तञ्जानन्नग्न आरोह अथा नो वर्धयारयम् अपेतवितपितसर्पतातः ये त्रस्थपुराणा ये च नूतनाः वसानं यमोऽपसानम् पृथिव्याः अक्रन्विमम् वितरो लोकमस्मै अग्नेर्भस्मास्यग्नेः पुलेशमसि सञ्ज्ञानमसि कामधरणम् मयिरे कामधरणम् भूयात् संवसृजामि हृदयानि सगम् सृष्टम् मनोऽस्तु वः सगम् सृष्टः प्राणो अस्तु वः संयावः कल्पेतान्द्या वा पृथिवी कल्पन्तामाप ओषधेः कल्पन्तामग्नजः पृथक् मम ध्येष्ठ्यायसंव्रताः येग्नयः समनसः अनन्तराद्या वा पृथिवी वासन्तिकावृतो अभिकल्पमानाः इन्द्रमिव देवा अभिसंविशन्तो दिवस्त्वा वीर्येण पृथिव्यैमहिम्ना अन्तरिक्षस्य पोषेण सर्वपशुमादधे अजीजनम् अमृतम् मर्त्या सह अश्रेमाणम् तरणिम् पीडुजम्भम् दशस्वसारो अग्रुवः समीचीः उमागुम् सञ्जातमभिसगुम् रभन्ताम् प्रजापते स्त्वा प्राणेनाभिप्राणिमि शरदम् शरद्ध्यायुषे वर्तसे जीवात्वे पुण्याय अहम् त्वदस्मि मदसि त्वमेतत् ममासि योनिस्तवयोनिरस्मि ममैव सन्वहव्यान्यग्ने पुत्रः पित्रे लोककृज्यातवेदः प्राणे त्वामृतमादधामि अन्नादमन्नाद्याय सुगारुहवत्यो विदहन्नरातेः उषसः श्रेजसे श्रेजसेऽर्दधत् अग्ने सपत्नागुम् अपबाधमानः राजस्पोशमिषमोर्जनमस्मासु धेहि इमा उमा उपतिष्ठन्तु राजः आभिः प्रजाभिरिहसंवसेज इहो हिडातिष्ठतु विश्वरूपे मध्ये वसो जातवेदः ओजसे बलायत्वोद्यच्छे विषणे सुष्मायायुषे वर्तसे सपत्मदोरसि वृत्रतोः यस्ते देवेषु महिमासु वर्गः यस्त आत्मा पशुषु प्रविष्टः पुष्टिर्जाते मनुष्येषु पप्रथे तयानो नो अग्ने जुषमान माता पशुभ्यो अध्यौषधीभ्यः यत्र यत्र जातवेदः सम्बभूथ ततो नो अग्ने भुषवाणदेहि प्राचीमनुप्रदिशम् प्रेहि अग्ने रग्ने पुरो अग्निर्भवेह विश्वा आशादीद्यानो विभाहि ओर्जन्वधेः द्विपदे चतुष्पदे अन्वग्निरुषसामग्रमक्षत् अन्वहानि प्रथमो जातवेदाः अनसोर्यस्य पुरुत्रा च रश्मीर अनुद्या वा पृथिवी आततान विक्रमस्व महागम् असि वेदिषन्मानुषेभ्यः त्रिषु लोकेषु जागृहे यदिदम् दिवो य ददः पृथिव्याः संविधाने रोदसी सम्बभूवतोः तयोः पृष्ठे जातवेदाः शम्भोः प्रजाभ्यस्तनुवेश्यो प्राणम् त्वामृता दधामि अन्नादमन्नाद्याय गोप्तारङ्गुप्त्यै यत्ते शुक्रशुक्रम् वर्चः शुक्रातनाः शुक्रम् शुक्रा ज्योतिरजस्रम् तेन मे दीदिहितेन त्वादधे अग्निनाग्ने ब्रह्मणा आनशे व्यानशे सर्ववायुव्यानशे निर्यप्रजाम् मे अमृतत्वाय जीवसे जाताम् च अमृते सत्ये प्रतिष्ठिताम् अथर्व पितुम् मे गोपाय प्रसमन्नमिहायुषे प्रदद्धायोशीतनो अरिषण्णः पितुम् कृणो शग्गस्य पशून्मे गोपाय द्विपादो ये चतुष्पदः अष्टाशफाश्च यिहाग्नेः आशुगाः सप्रथसभाम् मे गोपाय ये च सभ्याः सभासदः तानिन्द्रियावतः कुरु सर्वमायुरूपासताम् हरे बुद्धिनियमन्त्रम् मे गोपाय यमृषजस्त्रैविदा विदुहृजः सामानियजोगुंषे मध्ये प्रन्मज्जमानामहते सौभगाय मह्यम् धुक्ष्वयजमाना जकामान् यन्तत्र सतो भो अग्नयः प्राणेन वाचा मनसा बिभर्मे तिरोवासन्तमा जुर्मा प्रहासीत् ज्योतिषाभो वैश्वानरेणोपतिष्ठे पञ्चथाग्नेऽन्व्यक्रामत् विरात्सृष्टा प्रजापतेः ऊर्ध्वारोहद्रोहिणी योनिरग्नेः प्रतिष्ठितेः न वैतान्यहानि भवन्ति न नवैसु वर्गालोकाः न देतान्युपजन्ति नवस्वेव तत्सु वर्गेषु लोकेषु सत्रिणः प्रतितिष्ठन्तोजन्ते अग्निष्टोमाः परः सामानः कार्या इत्याहुः अग्निष्टोपसंवितः द्वादशाग्निष्टोमस्य स्तोत्राणि द्वादशमासाः संवत्सरः तत्तन्न सूक्ष्म् उक्थ्या एव सप्तदशाः परः सामानः कार्याः पशवो वा उक्थानि पशो नामवरुद्धे विश्वजिदभिजितावग्निष्टोमौ उक्थ्याः सप्तदशाः परः ते सग्विस्तुता विराजमभिसम्पद्यन्ते द्वे चर्चावतिरिच्येते एकजागौरतिरिक्तः एकजाजुरूनः स्ववर्गो वै लोको ज्योतिः कोर्विराड स्वर्गमेव तेन लोकमभिजन्ति यत्परगुम् राथन्तरम् तत्प्रथमेऽहम् कार्यम् बृहद्वितीये वैरूपम् तृतीये वैराजम् चतुर्थे शार्करम् पञ्चमे वैबतकम् षष्ठे तदुपृष्ठेभ्यो नयन्ति सन्तनय एते ग्रहा गिह्यन्ते अतिग्राह्याः इमाने सामस इमानेवैतैर्लोकान् सन्तन्वन्ति मिथुरा एते ग्रहागिह्यन्ते अतिग्राह्याः परः सामस इषणमेव तैर्युजमानावरुन्धते बृहत्पृष्ठम् भवति बृहद्वै सुवर्गो लोकः बृहदैव सुवर्गम् लोकयन्ति त्रयस्त्रिपुंशि नाम सामा माध्यन्दिने पवमाने भवति त्रयस्त्रिपुंशद्वै देवताः देवता एवावरुन्धरे देवता ये वा इतःपरान्तं संवत्सरमुपयन्ति न हैनन्ते स्वस्ति समश्नुवते अथ येऽमुतोर्वाञ्चमुपयन्ति ते हैनग्रः स्वस्ति समश्नुवते एतद्वा अमुतोर्वाञ्चमुपयन्ति यदेवाम् यो हलु वावः प्रजापतिः स विशो वान्दिवाकीर्त्यम् <continental> यथा शाला जयपक्षसी देवगुंसंवत्सरस्य पक्षसी यदेतेन गृह्येरन्ने विषो चे संवत्सरस्य पक्षसी व्यवस्रगुंसे जाताम् आर्तिवार्च्छेयः यदेते गृह्यन्ते यथा शाला जयपक्षसी मध्यमम् वगुंशमभि समागच्छति एवगं संवत्सरस्य पक्षसे दिवाकीर्त्यमभिसन्तन्वन्ते नार्तिवार्च्छन्ते एकविवंशमहर्भवति शुक्राग्राग्रहा गृह्यन्ते प्रत्युत्तधे स जत्वाय शौर्य एतदहः प्रशुरा लभ्यते सौर्योदिग्राह्यो गृह्यते अहरेव रूपेण समर्थयन्ति अथो अह्न एवैष बलिह्रियते सप्तैतदहरतिग्राह्या गृह्यन्ते सप्त वैशीर्षण्याः प्राणाः असावादित्यशिरः प्रजानाम् शीर्षण्येव प्रजानाम् प्राणान् दधाति तस्मात्सप्तशीर्षण्प्राणाः इन्द्रोभृत्रगम् हत्वा असुरान् पराभाव्य सिमान् लोकानभ्यजयत् कस्यासौ लोको न भिजित आसीत् तम् विश्वकर्मा भूत्वाभ्यजेत् यद्वैश्वकर्मणो गृह्यते स्वर्गस्य लोकस्याभिजित्यै प्रवा एते स्माल्लोकाच्यमन्ते ये वैश्वकर्मणम् गृह्णते आदित्यश्वो गृह्यते इयम् वा अदितिः अस्यामेव प्रतिष्ठन्ति अन्या अन्या गृह्येते विश्वा अन्येवान्येन कर्माणि कुर्वाणायन्ते अस्यामन्येन प्रतिष्ठन्ते का वा परार्थात् संवत्सरस्यान्यान्या गृह्येते ता बुभौ सह महाभ्रते गृह्येते यज्ञस्यैवान्तम् गत्वा उभयोर्लोकयोः प्रतितिष्ठन्ते अर्क्यमुत्थम् भवति अन्नाद्यस्यावरुध्यै एकविगुंश एष भवति एते नवै देवा एकविगुंशेन आदित्यमित उत्तमगुंसुवर्गम् लोकमारोहयन् स वा एष इत एकविगुंशः तस्य दशावस्तादहानि दश परस्ताद् स वा एष विराज्युभयतः प्रतिष्ठितः विराजिः वा एष उभयतः प्रतिष्ठितः तस्मादन्तरेव लोकौ यन् सर्वेषु सुवर्गेषु लोकेष्वभितपन्नेते देवावा आदित्यस्य सुवर्गस्य लोकस्य अराचोतिपादादभिभयोः पञ्च्छन्दोभिरदृगम् हन्धृत्ये देवावा आदित्यस्य सुवर्गस्य लोकस्य अवाचोपपादादभिभयोः तम् पञ्चभिरश्मिभिरुदवयन् तस्मादेकविगुंसेऽहन् पञ्चदिवाकीर्त्यानि क्रियन्ते रश्मयो वेदिवाकीर्त्यानि ये गायत्रे ते गायत्रेषोत्तरयोः पवमानयोः महादिवाकीर्त्यगम्होतः पृष्ठम् विकर्णम् ब्रह्म सामम् भासोऽज्ञष्टोमः अथैतानि पराणि परेर्वै देवा आधित्यगम् सुवर्गम् लोकमपारयन् हिरपारयन् तत्पराणाम् परत्वम् पारयन्त्येवम् पराणि यथ एवम् वेदा अभयितादिस्पराणि स्मरेर्वै देवा आधित्यगुम्सुवर्गम् लोकमस्पारयन् हिरस्पारयन् तत्स्मराणाभिः स्मरत्वम् स्मारयन् येन विस्मराणि यदेवम् वेद अप्रतिष्ठाम् वा एते गच्छन्ति येषागुम् संवत्सरे नाप्ते च एकादशिन्याप्यते वैष्णवम् वा मनमालभन्ते यिज्ञो वे विष्णुः यज्ञमेवालभन्ते प्रतिष्ठित्यै ऐन्द्राग्नमालभन्ते इन्द्राग्ने वै देवानामजातयामानौ ये एव देवते अजातयाम्नि ते, अजात ते एवालभन्ते वैश्वदेवमालभन्ते देवता एवावरुन्धरे द्यावापृथिव्यान् धेनुमालभन्ते द्यावापृथिव्योरेव द्यावा प्रतिष्ठन्ति वायव्यम् वत्समालभन्ते वायुरेवेभ्यो यथा यतना देवता अवरुन्धे आदित्यामबिम्वशामालभन्ते इयम् वा अदितिः अस्यामेव प्रतिष्ठन्ति मयित्रा वरुणेमालभन्ते मेत्रेणैव यज्ञस्य शिष्टगुं शमयन्ति अरुणेन दुरिष्टम् राजापत्यन्तोपरम् महाव्रत आलभन्ते प्राजापत्योदिग्राह्यो गृह्यते अहरेव रूपेण समर्धयन्ति अथो अह्न एवैष बलिर्ह्रियते आग्नेयमालभन्ते प्रतिप्रज्ञात्यै अजपे त्वानु वा एते पूर्वैर्मासैरवरुन्धते यदेते गव्याः पशव आलभ्यन्ते भयेषाम् पशूनामवरुध्यै यदतिरिक्तामेकादशनिमालभेरन् अप्रियम् भ्राद्रुव्यमभ्यतिरिच्येत यद्वौ द्वौ पशु समस्येयुः कनीज आयुः कुर्वेरन् यदेते ब्राह्मणवन्तः पशव आलभ्यन्ते नाप्रियम्भ्राद्रुव्यमभ्यतिरिच्यते न ना कनीज आयुः कुर्वते प्रजापतिः प्रजा सृष्ट्वा तम् देवाभूता नागुम्रसन्तेजः संहृत्य तेनैनमभिरज्यन् महानववर्तीति तन्महाव्रतस्य महाव्रतत्वम् महत्व्रतमिति तन्महाव्रतस्य महाव्रतत्वम् महतो व्रतमिति तन्महाव्रतस्य महाव्रतत्वम् पञ्चविगुंशस्तोमो भवति चतुर्विगुंशत्यर्धमासः संवत्सरः यद्वा एतस्मिन् संवत्सरेधि प्राजायत तदन्नम् पञ्च विगुंशमभवत् धिनोति अथो मध्यत एव तस्मादुदन्ते प्रजाः समेधन्ते अन्तरः त्रिवृच्छिरो भवति त्रेधा विहितगुम् हि शिरः प्लोमच्छरीरस्थी परा चास्तुवन्ति तस्मात्र सर्गेव न मेद्यतोऽनुवेद्यति न कृष्यतो नु कृष्यति पञ्चदशोऽन्यः पक्षो भवति सप्तदशोऽन्यः तस्माद्वया यस्यन्यतरमर्थमभिपर्यावर्तन्ते अन्यतरतो हितग्गरीयः क्रियते पञ्चविपुंश आत्मा भवति तस्मान्मध्यतः पशवो वरिष्ठाः एकविपुंशम् पुच्छम् विपदा सु स्तुवन्ति प्रतिष्ठित्यै सर्वेण सहस्तुवन्ति सर्वेण ह्यात्मात्मन्वि सहोत्पदन्ति एकैकामुच्छिपुंसन्ति आत्मन्यङ्गानि बद्धानि न वा एते पुरुषः यदि इतो लोमानि गतो नखान् परिमादः क्रियन्ते तान्येव ते न प्रत्युप्यन्ते औदुम्बरस्तल्पो भवति ऊर्गान्नमुदुम्बरः ऊर्ज एवान्नाद्यस्यावरुद्ध्यै यस्य तल्पसव्यमनभिरिजज्ञः स्यात् स देवादागुम् साम्यक्षे तल्पसद्यमभिजया नीति तल्पमारुह्योद्गायेत् तल्पसद्यमेवाभिजयति यस्य तल्पसद्यमभिजितज्ञः स्यात् महो वै प्लेङ् खः महस देवानाद्यस्यावरुद्ध्यै देवासुराः संयक्ता आसन् समजयन् ब्राह्मणश्च शूद्रश्च चर्म कर्ते व्यायच्छेते यैभ्यो वै वर्णो ब्राह्मणः असुर्यः शूद्रः इमे रात्सु इमे सुभूतमक्रम्यन्यतरो ब्रूयात् इम उद्वासीकारिण इमे दुर्भूतमक्रन्त्यन्यतरः यदेवैषा या गुंसुकृतम् याराद्धिः तदन्यतरोऽभिः श्रीणाति यदेवैषाम् या दुष्कृतम् याधिः तदन्यतरोपहन्ति ब्राह्मणः सञ्जयते अमुमेवादित्यम् भ्रातृव्यस्य संविन्दन्ते ओ इति प्रथमाष्टके द्वितीयप्रश्नः समाप्तः